अथ षट्षष्टितमः सर्गः अनेकशतसाहस्रीम् विषण्णाम् हरिवाहिनीम् जाम्बवान् समुदीक्ष्यैवम् हनुमन्तमथा ब्रवीत् वीरवाणरलोकस्य सर्वशास्त्रविदाम्बरा तूष्णीमेकान्तमाश्रित्य हनुमन् किम् न जल्पसि हनुमन् हरिराजस्य सुग्रीवस्य समोह्यसि रामलक्ष्मणयोश्चापि तेजसा च बलेन च हरिष्टमे वि नः पुत्रो महाबलः गरुत्मानिव विख्यात उत्तमः सर्वपक्षिणा बहुशो हिमया दृष्टः सागरे स सा महाबलः भुजङ्गानुद्धरन् पक्षी तस्य भुजवीर्यबलम् तव विक्रमश्चा वेग्च लापीये बल बुद्धि तेजस् सत्मच हरीपुंगवा विशिष्टु किनम सज्जस असरासरसा श्रेष्ठा विख्याता पुंजिक स्थला अंजने परख्याता पत्नी केसरिणो हरे विख्याताोकेशुपे प्रतिमा भुवि अभिशापादभूत्तातकपित्वे कामरूपिणि दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः मानुषम् विग्रहम् कृत्वा रूपयौवनशालिनी विचित्रमाल्याभरणा कदाचित्क्षौमधारिणि अचरत्पर्वतस्याग्रे प्रावृडम्बुध सन्निधे तस्या वस्त्रम् विशालाक्ष्या प्रीतम् रक्तदशम् शुभम् स्थितायाः पर्व तस्याग्रे मारुतोपाहरच्छनैः सददर्श ततस्तस्या वृत्ता भूरु सुसंहतौ स्तनौ च पीनौ सहितौ सुजातम् चारुचाननम् ताम् बलादाय तश्रोणीम् तनु मध्याम् यशस्विनीम् दृष्ट्वैव शुभ सर्वाङ्गीम् पवनः काममोहितः सताम् भुजाभ्याम् पर्यश्वजत मारुतः मन्मथाविष्टसर्वाङ्गो गतात्मातामनिन्दिता सा तु तत्रैव सम्भ्रान्ता सुव्रता वाक्यमब्रवीत् एकपत्नी व्रतमिदम् को नाशयितुमिच्छति अञ्जनाया वच श्रुत्वा मारुतः प्रत्यभाषत न त्वाम् हिंसामि शुश्रोणिमा भूत् ते वीर्यवान्बुदिपन्न स्व पुत्रो भविष्यति महातेजा महा भविष्य महासत्व महातेज महाबलरा चैव भविष्यति मया समहा एव मुक्ता ततस्तुषा जननी महाकपे गुहायां महाबाहो प्रज्ञे प्लवगर्षभा अभ्युत्थितूर्य बालो दृष्ट्र महावने फलम् चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युत्पतो दिवम् शतानि महाकपे तेजसा तस्य निर्धूतो न महाकपे क्षिप्तमिन्द्रेण ते ततो हि नामधेयन्ते हनुमानिति कीर्तितम् ततस्त्वाम् निहतम् दृष्ट्वा वायुर्गम् धवः स्वयम् त्रैलोक्यम् भृशसङ्क्रुद्धो नवमौ वै प्रभञ्जनः सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते प्रसादयन्ति सङ्क्रुद्धम् मारुतम् भुवनेश्वराः प्रसादिते च पवने ब्रह्मा तुभ्यम् वरम् ददौ अशस्त्रवध्यताम् तातसमरे सत्यविक्रम वज्रस्य च निपातेन विरुजम् त्वाम् समीक्ष्य च सहस्रणेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् स्वच्छन्दतश्च मरणम् तव प्रभो सत्त्वम् केसरिणः क्षेत्रजो भीमविक्रमः मारुतस्यौरसः पुत्रस्तेजसा चापि त्वम् हि वत्सप्लवने चापि तत्समः वयमद्यगत प्राणा भवानस्मासु साम्प्रतम् दाक्ष्य विक्रमसम्पन्नः कपि राज इवापरः त्रिविक्रमे मयातात तातसशैलवलकानला त्रिः सप्त कृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् तथा चौषधयोऽस्माभिः सञ्चिता देवशासनात् निर्मथ्यममृतम् याभिस्तदानीम् नो महद्बलम् स इदानीमहम् वृद्धः परिहीन पराक्रमः साम्प्रतम् कालमस्माकम् भवान् सर्वगुणान्वितः तद्विजृम्भस्व विक्रान्त प्लवतामुत्तमो ह्यसि त्वद्वीर्यम् द्रष्टुकामा हि सर्वा वानरवाहिनी उत्तिष्ठहरिशार्दूलङ्घयस्व महार्णवम् परा हि सर्वभूतानाम् हनुमन्या गतिस्तव विषण्णाहरयः सर्वे हनुमन् किमुपेक्षसे विक्रमस्व महावेग विष्णुस्त्रीन्विक्रमानिव ततः कपीना वृषभेण चोदितः प्रतीत प्रहर्षयम् स्ताम् हरिवीरवाहिनीम् चकाररूपम् महदात्मनस्तदा इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्षष्टितमः